हरि ओम् श्रीजगदम्बिकायै नमः अथ श्री देवी भागवत महापुराणे प्रथमस्कन्धे एकादशोऽध्यायः ऋषे चूरवा राजा कुर्वशीदेव कन्यका कथं कष्टं च सम्प्राप्तं तेन राज्ञा महात्मना सर्वं कथानकं ब्रूहि दोमहर्षणजाधुना श्रोतुकामा वयं सर्वे तन्मुखाब्ज अच्युदम् रथम् अमृतादभिमीटाति वाणिसूतरसात्मिक न तृप्यामो वयं सर्वे सुधया च यथामरः सूत उवाच शृणुध्वं मनय सर्वे कथां दिव्यां मनोरमां वक्ष्याम्यहं यथा बुद्ध्या चतां व्यासवरुत्तमात् गुरस्तु दैता भार्या तारा नामेति विश्रुता कृपा यौवनयुक्ता सा चार्वङ्गी मद्विह्व गतैकदा विधोर्धाम यजमानस्य भामिनी दृष्टा च शशिनात्यर्थं नृप यौवनशालिनी कामातुरस्तदा तशि शशिमुखीं प्रति सा पीविष्य कामं दातः मदनपीडिता तौन्योन्यं प्रेमयुक्तो स्मरार्थो च बभूवतु ताराशे मदोन्मत्तौ कामबर्णीडितौ हरे माते मदमत्तौ तौ परस्पर गृहान्वितौ दिनानि कतिचित् तत्र जाता निर्ममाणयोः बृहस्पतिस्तु दुःखार्थ तारम् आनयितुं गृहम् प्रेषयामास शिष्यं तु नाय तासा वशीकृता पुनः पुनर्यदा शिष्यम् परा वर्तत चन्द्रमः बृहस्पति तदा क्रुद्धो जगामृ स्वयमेव हि गत्वा स्वोम गृहम् तत्र वाचस्पतिरुदारधि वाचिष्यम् क्रुद्ध स्मयमानं वदान्वितम् किं कृतं किल शीतासु कर्म धर्म विगर्हितम् रक्षिता मम भार्य सुंदरी हेतु तव दें गुरुस्ज मनो गुरु, गुरु भार्य कथम मूढ़ता ब्रमा हेम हिरापुर गुरुतल महापात कि तत्म सर्गीम महापातकुक्त दुराचारोति गर्त न देव सुदनाहोऽसि यदि भुक्तेयमङ्गना मुञ्चे माम् असितापाङ्गीम् नयामि सदनम् मम नो चेत् वक्ष्यामि दुष्टात्मन् गुरुधारापहारिणम् इत्येवम् भाषमाणं तम् उवाच रोहिणीपतिः गुरुम् क्रोधसमायुक्तम् कान्ताविधदुःखितम् इन्दु उवाच ग्रोधात्ते तु दुराध्या ब्राह्मणा क्रोधवर्जिता पूजार्हा धर्मशास्त्रज्ञा वर्जनीया ततोऽन्यथा आगमिष्यति सा कामं गृहं ते वरवर्णिनी अत्रैव संस्थिता बाला कातेः निरह न इच्छया संस्थिता च त्रे सुख कामार्थिनिहिता दिनानि कथचित् स एवोदाहृतम् पूर्वं धर्मशास्त्रम् दधा न श्रीदुष्यति चारेण कर्मणा इत्युक्तः शचिना तत्र गुरुः अत्यन्तदुःखितः जगामः स्वगृहं तूर्णं चिन्ता विच स्मरातुर दिनादि कथित् तत्र गुरुः यथावत् गृहम् तस्य त्वरितचौषधीपते त्रा निषिद्धसो द्वारा न जिगम शची त्र चुकोपाती बृहस्पति अयतापत्नी जग्रह बल तो धर्मी शिक्षण यो मैधुनाचवाचं कोप तो द्वार स्थित कि मंद पापाचार्य सुराधमा देहीमैकामिं शीघ्रं नो चेत् शापं ददाम्यहं करोमि भस्मं सा नूनं न ददासि प्रिया मम सुतो वाचराणि चैव मादीनि भाषणानि बृहत्पते श्रुत्वा विजयपति शीघ्रं निर्गत सदनाद्भिः तमुवाच ह सोम किमिदं बहुभाषते न ते योग्या सिदापाङ्गी सर्वलक्षणसंयुता गुरूपाञ्च स्वसदृशीम् पुराण्यान्याम् भिक्षुकस्य गृहे योग्या निरवर्णिनि प्रति स्वसदृशे कान्ते नार्या केल निगद्यते तं न जानासि मन्दत्वं कामशास्त्रविनिर्णयम् यथेष्टम् गच्छ दुर्बुद्धेनाहम् दास्यामि कामिनीम् यच्छक्यम् कुरु तत्कामम् न देया कामात्तस्य च देशा पूर्णमम् बाधितुमर्हति नाहं दधे गुरुकान्ता यथेच्छसि तथा गुरु श्रोत उवाच इत्युक्तः शचिनाचेज्य चिन्ता मापशान्वितः जगामतर क्रोधयुक्तः शचीपते दृष्ट्वा शत कृतु तत्र गुरुम् दुःखातुरं स्थितम् पाद्यार्घ्याच्च मनीयाद्यै पूजयित्वा सुसंस्थितः पप्रच्छ परमोदार तं वि तथो अस्थितं गुरुम् काचिन्ता ते महाभागशोकातोऽसि महामुने केनापमानितोऽसि त्वं मम राजे गुरुचमये त्वदधीनमिदं सर्वं सैन्यं लोकाधिपैतः ब्रह्माविष्णु तथा शम्भु ये चान्ये देव सत्तमः करिष्यन्ति च साहाय्यं का चिन्तावदसाम्बतम् उरुवाच शशिना प्रहृता भार्या तार मम सुरोचना न ददाति स दुष्टात्मा प्रार्थितोऽपि पुनः पुनः किं करोमि सुरेश न शरणं मम साहाय्यं कुरु देवे च दुःखितोऽस्मि शतक्रतो इन्द्र उवाच मा शोकं गुरुधर्मज्ञ दासोऽस्मि तव सुव्रत अनेष्यामह्यं नूनं भार्यां तव मामते प्रेषिते चेन्मया दूते न दास्याति मदाकुले त्वयो युद्धं करिष्यामि देवसैन्ये समावृते, इत्याश्वास्य गुरुं चक्रो दूतम् वक्त्रो विचक्षणम् प्रेषयामास सोमाय वाताशन्निस्तनम् वाताशन्तिनमद्भुतम् वाता स गत्वाश्रयलोकम् तु त्वरितः सुविचक्षणः उवाच वचनेनैव वचनं गृहिणीपतिम् प्रेषितोऽहं महाभागचक्रेण त्वां विवक्षया कथितं ब्रमणा यच्च तद्ब्रवीमि महामते धर्मज्ञोऽसि महाभागनीतिं जानाति सुव्रत अत्रे पिता ते धर्मात्माननिन्द्यं कर्तुमर्हसि भार्यां रक्षा सर्वभूते यथाशक्ति यतन्द्रिते तदर्थे कलहे कामं भविता नात्र संशयः यथा तव तथा तस्य यत्नस्या दाररक्षणे आत्मवत् सर्वभूतानि चिन्तय त्वं सुधानिधि अष्टाविंशतिसङ्ख्याते कामिन्यो दक्षजाशु वा गुरुपत्नीं कथं भोक्तुं तमिच्छासि सुधानिधि स्वर्गे सदा वसन्त्येता मेन काद्या मनोरमा भुङ्के तास्वैच्छया कामं मुञ्च पत्नीं गुरोरपि ईश्वरा यदि कुर्वन्ते जुगुप्सीत महन्तया अज्ञात तन्वर्तन्ते तदा धर्माक्षयो भवेत् तस्मान्मुञ्च महाभागे गुरोपत्नीं मनोरमां कलहसन्निमित्तद्य सुराणां न भवेद् यथा श्रोतोवाच स्वमश्चक्रवच श्रुत्वा किञ्चित् क्रोधसमाकुलः भङ्ग्या प्रतीवच प्राह चक्रधूतं ददास्यसि हिन्दुवाच धर्मज्ञोऽसि महाबाहो देवानामधिपस्वयम् पुरोधापि च ते तादृक् युवयो परोपदेशे कुशला भवन्ति भवो दुर्लभस्तु स्वयं कर्ता प्राप्ते कर्मणि सर्वदा स्य प्रणीतं च शास्त्रं गृह्णन्ति मानवाः को विरोधोत्र त्रिदेवेश कामयानां भजन् स्वकीयं बलिनां सर्वं दुर्बलानां च किञ्चन स्वीया च परकीया च भ्रमूयम् मन्द चेतसां तारामय्यनुरक्ता च चे तथा ता ता अनुरक्ता कथं त्याज्य धर्मतो न्यायतस्तथा गुरारम्भस्वरक्तायाम् विरक्तायाम् कथम् भवेत् विरक्तेयम् यदा या जाता चकमये नो जकामिनीम् न दास्येऽहं वरारोहम् गच्छवद स्वयम् ईश्वरोऽसि मरसहस्रा च यदिच्छसि कुरुष्वदूतवाच इत्युक्त शशिना दूतप्रजयो श्रुत्वा क्रोधयुक्तो बहुवः सेनोद्योगं तथा चक्रे साहाय्यार्थं गुरोर्विभुः शुक्रस्तु विग्रहं श्रुत्वा गुरुर्द्वेष्टात्ततो ययौ वा सदस्वेतितं वाक्यं उवाच ते करिष्यामि मन्त्रशक्त्या महामते भविता यदि सङ्ग्रामे तव च इन्द्रेण शङ्करस्तु तदा कण्या गुरुद्वाराभिभाषणम् गुरुशत्रुम् भृगुम् मत्वा साहाय्यम् अकरोत् तदा सङ्ग्रामस्तु तदा वृत्तो देव दानवयोर्धृतम् बहुली तत्र वर्षाणि तारकासुरवत् किल देवासुर कुतं युद्धं दृष्ट्वा तत्र पितामह हंसारूढो जगामाशूतम् देशम् क्लेश धाह मुंरो नोचे विष्णु साहस आहूय क्या संशय भ्रुगुंवास ब्रोक पिता कियोषाते निषेधयामा भ्रुव् तम चौषधीपति मंच भार् गुरो पिताहम प्रशित तव श्रुत उवाच द्विजराजस्तुतश्रुता गुरुर्भचनमद्वदम् ददौ च तत्प्रियाम् भार्याम् गुरोर्गर्भवतीम् शुभाम् प्राप्तकान्ताम् गुरुर्हृष्ट गुरु स्वगृहम् गुरु मदितो ययौ ततो देवा तथा दस्या ययुः स्वान् स्वान् गृहान् प्रति ब्रह्मा स्व सदनम् प्राप्त कैलासम् चापि शङ्करः बृहस्पति तु सन्तुष्ट प्राप्य भार्या मनोरमाम् ततः कालेन केता तारासूतं सुतं शुभम् सुदीरे नक्षत्रे तारापते समं गुणै दृष्ट्वा पुत्रम् गुरुर्जातं चकार विधिपूर्वकम् दातकर्मादिकं सर्वं प्रवृष्टे न जन्म पुत्रस्य मुनिसत्तमा ोतं च प्रेषयामः स गुरुं प्रति मामती न चायं तव पुत्रो ते मम वीर्य समुद्भव कथं तं कृतवान् जात कर्मादिकं विधिं तच्छ्रुत्वा वचनं तस्य दूतस्य च बृहस्पति उवाच मम पुत्रो मे सदृशो नातु संशय पुनर्विवाद सञ्जातो मिलिता देव युद्धागतायत तय ब्रह्म शाति काम प्रजापतिमा संस्थित युद्ध दुर्मदा तारा प्रपच्य धर्म न कथ्यम तन ये शुभ सत्यम वो यथा क्लेश प्रशा्य तमुवाचा सिंगी लज्जाप्यधोम मुखी चन्द्रस्येति शनै यन्त जगामृ वरवर्णिनि जग्राह तं सुदं समप्रवृतेनान्तरात्मना नामचक्रे बुध इति जगामृहे स्वगृहम् पुनः यथा ब्रह्मा स्वकं धाम सर्वे देवासु वासवः यथा गतं सर्वे सर्वैः सर्वै च प्रेक्षजगै जनैः कथितैयम् बुधोत्पत्ते च सोमतः यहां मैया पूर्व व्यासा सत्यवती सुमदेवी भागवते माँ पुराणे अठादशायाथमस्कंधे बुद्धोत्पत्तिनादशोध्याजगदंबिका